भागवत् महापुराणम् एकादशस्कन्ध चतुर्दशोऽध्यायः विषयान्ध्यायतश्चित्तं विषयेषु विसर्जते मामनुस्मरतश्चित्तं मय्येव प्रविलीयते तस्माद् सन्दभिध्यानं यथा स्वप्नमनोरथं हित्वा मयि समाध्यस्व मनोमद्भावभावितम् स्त्रीणां श्रीसृङ्गीनां सङ्गं त्यक्त्वा दूरत आत्मान् क्षेमे विविक्त आसीनश्चिन्तयेन्मां तन्द्रितः न तथास्य भवेत्क्लेशो बन्धस्याण्यप्रसङ्गतः ज्योतिस्तङ्गासृङ्गाद्यथा पुंसो यथा तत्सङ्गिसङ्गतः उद्धौ उवाच यथा त्वामरविन्दाक्षयादृशं वाजदात्मकं ध्यायेन्ममुक्षुरे तन्मे ध्यानं तं वक्तुमर्हषि श्रीभगवानुवाच सम आसन आसीनशमकायोजो यथा सुखं हस्तावत्सङ्गाधाय स्वनासाग्रकृते क्षणः प्राणस्य शोधयेन्मार्गं पूरकुम्भकरे चकैः विपर्ययेणापि शनैरभ्य शेन्निर्जितेन्द्रियः हृद्यविच्छिन्नमङ्कारं घण्टानादं विशोर्णवत् प्राणोर्णो तत्राथ पुनः संवेशयेश्वरम् एवं प्रणंस युक्तं प्राणमेव शमभ्यसेत् दशकृत्वस्त्रिवृश्रवणं मासादर्वाङ्गजितानिलः यत्पुण्डरीकमन्तस्थम् ऊर्ध्वनालमधोमुखं ध्यात्वोर्ध्वमुखमुन्निन्द्रमष्टमत्पत्रं शकर्षिणं शकर्णिकं कर्णिकान्यां नथे सूर्यं सोमाग्नेनुत्तरोत्तरं वह्निमध्ये स्मरे द्रूपं ममैतध्यानमङ्गलम् समं प्रशान्तं सुमुखं दीर्घचारु चतुर्भुजं सुचारु सुन्दरग्रीवं शुकपोलं सुचिस्मितं समालकर्णविन्यस्ततत्पुरन्मकरकुण्डलं हेमाम्बरं घनश्यामं शैवस्य श्रीनिकेतनं शङ्खचक्रगदा पद्मावनमालाभिभूषितम् नुपुरे विलसत्पादं कोसुभत्प्रवेयायुतं दुमत्किरीटकटककटिसुत्रादायुतं सर्वाङ्गसुन्दरं छिद्यं प्रसादचुमुखे क्षणम् सुकुमारम् अभिध्याये सर्वाङ्गेषु मनोदधत् इन्द्रियाणि इन्द्रियार्थेभ्यो मनसा कृत्य तन्मनः बुद्ध्या सारथिनाधीरप्रणयेन्मयि सर्वतः तत्सर्वव्यापकं चित्तम् आकृष्यैकत्र धारयेत् नान्यानि चिन्तयेद्भूय सुस्मितं भावयेन्मुखं तत्र लब्धपदं चित्तम् आकृष्य व्योमि धारयेत् तच्चि त्यक्त्वा मदारोहो न एवं समाहितमतिर्मादेवात्मात्मने विचष्टे मयि सर्वात्मन् ज्योतिर्ज्योतिषिसंयुतं ध्यानेनेत्थं सुतीव्रेण युञ्जतो योगिनो मनः संयास्यत्याशुनिर्वाणं द्रव्यज्ञानक्रियाभ्रमः इति श्रीमद्भागवते महापुराणे पारमहस्यातादश स्कंधे चतर्दशोध्याय